अथ साष्टाङ्गप्रणामः शिवाय नमः वो हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् सदाधारपृथिवीन्द्यामुते माम् कस्मै देवाय हविषा विधेम उमामहेश्वराभ्या नमः यः प्राणतोनिमिषतो महि त्वैकयिद्राजा जगतो बभूव यैषे अस्य द्विपदश्च दुष्पदः कस्मै देवाय हविषा विधेम उमामहेश्वराभ्यान्नमः ब्रह्मजज्ञानम् प्रथमं पुरस्ताद्विषीमतः सुरुचोपेन आवहा स बुद्धिया उपमा अस्य नमः महीद्योः पृथिवी च मिमिक्षता त्रिपृतान्नो भरीमभिः उमामहेश्वराभ्यान्नमः उपश्वासय पृथिवीमुतद्याम् पुरुत्रा ते मनुताम् विष्टितम् जगत् सरुन्दुभे सजोरिन्द्रेण देवैर्दूराद्दवीयो अपषेधशत्रून् उमा महेश्वराभ्यां नमः आग्रेण य राये अस्मान् विश्वाणि देववयुनानि विद्वान् योऽध्यस्मज्जुहुराण मेनो भूयिष्ठान्ते न मुक्तिं विधेम उमामहेश्वराभ्यान्नमः या ते अग्नेरुद्रिया तनुस्तया नः स्वाहा उमामहे इमं यमप्रस्तरमाहि सीताङ्गिरोभिः पितृभिः संविधानः आत्वा मन्त्रा कविशस्तावहन् त्वे नाराजन हविषामादयस्व